कृष्णयजुर्वेदे क्रमपाठे पञ्चमकाण्डे चतुर्थः प्रश्नः प्रारम्भः ओ देवासुराः संयत्ताः देवासुरा इति देवासुराः तेन नवी यजयन्त अजयन्तसः स एताः एता इन्द्रः इन्द्रस्तनोः तनोरपश्यत् अपश्यत्ताः ता उपा उपाधत्ता अधत्तताभिः ताभिर्वै वरैः सह स तनुवम् तनुवमिन्द्रियम् इन्द्रियम् वीर्यम् वीर्यमात्मन् आक्मन्नधत्त अधत्त देवाः देवा अभवन् परासुराः असुरायत् इन्द्रतनोः इन्द्रतनोरुपदधाति इन्द्रतनोरिति इन्द्रतनोः उपदधाति उपदधाति इत्युपादधाति सर्वमेव देवताभिः ताभिरिन्द्रियम् इन्द्रियम् वीर्यम् भीद्यं। वीर्यम् भीद्यं। युजमानः यजमान आत्मन। आत्मन् आत्मम् धत्ते, धत्ते सेन्द्रम् अर्थो इत्यथो सेन्द्रमेव स्वेन्द्रमिति सा इन्द्रम् एवाग्निम् अग्निकम् सतमम् सतमम् चुते सतनमिति साम् श्रुते भवति भवत्यात्मना आत्मना परा प्रास्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवति यज्ञः यज्ञो देवेभ्यः देवेभ्योप अपाक्रामत् अक्रामत्तम् तमवरुधम् अवरुधम् न अवरुधमित्यवारुधम् नाशक्नुवन् शक्नुवन्ते त एताः एतायज्ञतनोः यज्ञतनोरपश्यन् यज्ञतनोरिति यज्ञतनोः अपश्यन्ताः प्रा उपादधत अदधतताभिः प्राभिर्वै वैते ते यज्ञम् यज्ञमव अवारुन्धत अरुन्धत यत् यद्यज्ञतनोः यज्ञतनोरुपदधाति यज्ञतनोरिति उपदधाति यज्ञम् उपदधातीत्युपदधाति यज्ञमेव देवताभिः ताभिर्यजमानः यजमानो वा अवरुन्धे त्रयसृगुंशतमिति त्रयः त्रिगुंशतम् उपदधाति दधाति त्रयस्त्रिपुंशत् त्रयस्त्रिकुंशद्वै त्रयसृगिंशदिति त्रयः त्रिगिंशत् त्रि देवताः देवता देवताः देवता एव एवाव अवरुन्धे वृन्धे अथो सात्मानम् अथो यद्यथो सात्मानमेव सात्मानमिति सा आत्मानम् एवाग्निम् रन्दिकम् सतनुम् सदनुम् जिनधे सतनमिति साधनुम् श्रुते सात्मा सात्मा अस्मिन् सात्मेति सा आत्मा अमस्मिल्लोके वेद वेद ज्योतिष्मतीः ज्योतिष्मतीरुप उपदधाति ज्योतिरेव एवास्मिन् अस्मिन् दधाति दधात्येताभिः एताभिर्वै वा अग्निः अग्निश्चितः चितोज्ज्वलति ज्वलति येन पुंसम् समिन्धे इन्ध उभयोः उभयोरस्मै अस्मै लोकयोः लोकयोर्ज्योतिः ज्योतिर्भवति भवति नक्षत्रेष्टका उप इति नक्षत्र इष्टकाः उपदधाति द्धा दधात्येतानि एतानि वै वै दिवः दिवो ज्योतिगुंसि ज्योतीगुंसितानि तान्येव एवाव अवरुन्धे वृन्धे सुकृताम् सुकृतां वै सुकृतामिति सुकृताम् वा एतानि कुरुते सुवर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य इति सुभागस्य लोकस्यानुख्यात्यै अनुख्यात्यै यत् अनुख्यात्या इत्यनोख्यात्यै यत्सर्गस्पृष्टाः सर्गस्पृष्टा उपदध्यात् सर्गस्पृष्टा इति संस्पृष्टाः उपदध्याद्दृश्ये उपदध्यादित्युपदध्यात् दृश्लेलोकम् लोकमपि अपिदध्याद् दध्यागवर्षुकः अवर्षुकः पर्जन्यः पर्जन्यः स्यात् स्यादसर्गःस्पृष्टाः असग्गःस्पृष्टा उप असर्गःस्पृष्टा इत्यसंस्पृष्टाः उपदधाति दधाति वृष्टे वृष्ट्या एव लोकम् लोकम् करोति करोति वर्षुकः वर्षुकः पर्जन्यः पर्जन्यो भवति करोति पुरस्तात् पुरस्तादन्याः अन्याः प्रतीचैः प्रतीचेरुप उपदधाति दधाति पश्चात् पश्चादन्याः अन्याः प्राचीः प्राचीस्तस्मात् तस्मात् प्राचीनानि प्राचीनानि च प्रतीचीनानि प्रतीचीनानि च नक्षत्राणि नक्षत्राण्या आवर्तन्ते वर्तन्त इति वर्तन्ते द्रव्या उप उपदधाति दधानाम् ऋतॄणाम् गृत्यैः कृत्यै द्वन्द्वम् द्वन्द्वमुप द्वन्द्वमिति द्वन्द्वम् उपदधाति दधाति तस्मात् तस्माद्वन्द्वम् द्वन्द्वमृधवः द्वन्द्वमिति द्वम् द्वम् ऋतबोधृता अधृतेव इव वै यन्मध्यमा मध्यमाचितिः चितिरन्तरिक्षम् अन्तरिक्षमिव इवै वा एषा एषा द्वन्द्वम् द्वम् द्वम् अन्यासु चितेषु चितेषूप उपदधाति मध्ये मध्ये धृत्यै धृत्याः अन्धश्लेषणम् अन्धश्लेषणम् वै अन्धश्लेषणमित्यन्तः श्लेषणम् वा एताः एताश्चितीनाम् श्रीना यद् यदृतव्या आहृतव्या यद् यदृतव्या आहृतव्या उपदधाति उपदधातितीनाम् उपदधाति दृपा दधाति स्थितीनाम् विधृत्यै विधृत्या अवकाम् विधृत्या विजवे धृत्यै अवकामनु अग्नेः अग्नेर्योनिः योनिः स योनिम् स योनिमेव स योनिमिति स योनिम् उवाच उवाचः अविश्वामित्रः विश्वामित्रोदर् विश्वामित्र विश्वामित्रः अददित् यत्सः स ब्रह्मणा अन्नयस्य यस्येताः एता उपधेयान्तैः उपधेयान्तयः उपधेयान्ता इत्युपधेयान्तैः यगौ उ चैनाः एना एवम् एवम् वेदत् वेददिति इति संवत्सरः संवत्सरो वै संवत्सर इति संवत्सरः वा एतम् एतम् प्रतिष्ठायै प्रतिष्ठायै मुदते प्रतिष्ठाया इलिप्रतिष्ठायै मदते यः योऽग्निम् अग्निम् चित्वा चित्वा न प्रतितितिष्ठति प्रतितिष्ठति पञ्च प्रतिष्ठति लिप्रतिष्ठति पञ्चपूर्वाः पूर्वाश्चितगः चितगो भवन्ति भवन्तिथ अथषष्ठीम् षष्ठीम् छितिम् चितिम् चिनुते चिनुते षड् षड्वै वा ऋतवः ऋगवः संवत्सर इति संवत्सरः ऋतुष्वेव एव संवत्सरे संवत्सरे प्रति संवत्सर इति संवत्सरे प्रति तिष्ठति तिष्ठत्येताः वा अधिपत्नीः अधिपत्नीर्नाम अधिपत्नीरित्यधिपत्नीः नामेष्टकाः इष्टका यस्य एता उपधीयन्ते उपधीयन्ते अधिपतिः उपधीयन्त इत्युपाधीयन्ते अधिपतिरेव अधिपतिरित्यधिपतिः एव समानानाम् समानानाम् भवति भवतियम् यन्विष्यात् विष्यात्तम् तमुपदधत् उपदधद् ध्यायेत् उपदधदित्युपादधत् ध्यायेदेताभ्यः एताभ्यदेव एवैनम् एनम् देवताभ्यः देवताभ्यः आवृष्टति पृष्ठति ताजग ताजगार्तिम् आर्तिमा आर्च्छति पृच्छत्यङ्गिरसः अङ्गिरसः �right सुवर्गम् सुवर्गम् लोकम् सुवर्गमिति सुवभागम् लोकयन्तः इन्द्रो या या यज्ञस्य यज्ञस्य निष्कृतिः निष्कृतिरासीत् निष्कृतिरिदिनिः कृतिः आसीत् ताम् ताम् ऋषिभ्यः ऋषिभ्यः प्रति ऋषिभिृषिभ्यः प्रत्यौहन् अौहन् तद्धिरण्यम् हिरण्यमभवत् अभवद्यत् यद्धिरण्यशुल्कैः हिरण्यशुल्कैः प्रोक्षति हिरण्यशल्कैरति हिरण्यशल्कैः प्रोक्षति यज्ञस्य प्रोक्षतीति प्रावोक्षति यज्ञस्य निष्कृत्यै निष्कृत्या अथो निष्कृत्या इति निः कृत्यैः अथो भेषज अथो इत्यथो भेषजमेव एवास्मै रूपेण अथो इत्यथो रूपेणैव देवैनम् एनपुंसम् समर्थयति अर्थयत्यथो अथो हिरण्यज्योतिषः अथो इत्यतो हिरण्यज्योतिषैव हिरण्यज्योतिषेति हिरण्यज्योतिषाः एव सुवर्गम् सुवर्गम् लोकम् सुवर्गमिति सुभागम् लोकमेति एति साहस्रवता साहस्रवताप्र साहस्रवतेति साहस्रावताः प्रोक्षति रोक्षति साहस्रः साहस्रः प्रजापतिः प्रजापतिः प्रजापतेः प्रजापतिरदिप्रजापतिः प्रजापतेराद्यैः इमामे मे अमे अङ्गाः इष्टका धेनवः धेनवः सन्तु इत्याह आह धेनूः धेनुरेव ये वैनाः कृते प्रवेदाः ता एनम् एनम् कामदुघाः कामदुघा अमुत्र कामदुःघा इति कामादुघाः अमुत्र अमुष्मिन् अमुष्मिन् लोके लोक उप उपतिष्ठन्ते तिष्ठन्त इति एष यत् यदग्निः अग्निः सह स एतर्हि एतर्हि जातः जातो यर्हि सर्वः सर्वश्चितः चितः सः स वत्सः वत्सो जातः जातस्तनम् स्तरम् प्रेप्सत्येवम् प्रेप्सतीति प्र ईप्सति वै वा एषः एष एतर्हि एतर्हि भागधेयम् भागधेजम् प्र भागधेजमिति भागधेयम् प्रेप्सति ईप्सति तस्मै यदाहुतिम् आहुतिम् न आहुतिमित्याहुतिम् न जुहुजात् जहुयादध्वर्यम् अध्वर्यम् च यजमानम् यजमानम् च सध्यायेत् ध्यायेत् शतरुद्रियम् शतर्द्रीयम् जुहोति शतरुद्रीयमिति शतारुद्रीयम् जुहोति भागधेयेन एवैनम् एनगुम् शमयति शमयति न नार्तिम् आर्तिमा आर्च्छति पृच्छत्यध्वर्युः अध्वर्युर्न न यजमानः यजमानो यत् यद्ग्राम्याणाम् ग्राम्याणाम् पशूनाम् पशूनाम् पयसा पयसाजुहयात् अजुयाद् ग्राम्यान् ग्राम्यान् पशून् पशोन्शुचा शुचार्पयेत् अर्पयेद्यत् यदारण्यानाम् आरण्यानामारण्यान् आरण्याञतुलय वाग्वा जर्तिलयवाग्वा वा जिलयवाग्वेति जक्तिलाय वाग्वा वाजुहुयात् जुहुयाद्गवेधुगजवाग्वा अवेधुगजवाग्वा वा अवेधुगजवाग्ति गवीधुगाय वाग्वा वा न ग्राम्यान् ग्राम्यान्पशोन् पशून् हिनस्य हिनस्ति नारण्यान् आरण्यानथो अथो खलु अथो इत्यथोः खल्वाहुः आहुरनाहुतिः अनाहुतर्वै अनाहुतिरित्यनाहुतिः जर्तिलाः जर्तिलाश्च जगवीथुकाः जगवीथुकाश्च चेति इत्यज क्षीरेण अजक्षीरेण जहोति अजक्षीरेण इत्यज क्षीरेण जहोत्याग्नेयी आग्नेयी वै वा एषा यदजा अजाहृत्या आहृत्यैव आहुत्येत्याहृत्या एव जति विहोतिना ग्राम्यान् ग्राम्यान् पशून् पशून् हिनस्ति हिनस्ति नारण्यान् आरण्यानङ्गिलसः अङ्गिलसः सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति लोकयन्तः यन्तो जायाम् अजायाम् घर्मम् घर्मम् प्रा, प्रासिञ्चन् असिञ्चन् सा सा शोचन्ती शोचन्ती पर्णम् परनं, पर्णम् परा पराजिहीत अजिहीतसः सोऽर्कः भवत् अभवत्तत् तदर्कस्य अर्कस्य अर्कत्वम् अर्कत्वमर्कपर्णेन अर्कत्वमित्यर्कत्वम् अर्कपर्णेन जुहोति अर्कपर्णेनेत्यर्कपर्णेन जुहोति सयो नित्वाय सयोनित्वा योदङ् सयोनित्वादेति सयो नीत्वाय रुदङ् तिष्ठन् तिष्ठन् जुहोति वै वै रुद्रस्य रुद्रस्य दिक् दिक्स्वायाहम् स्वाजामेव एव दिशि दिशि रुद्रम् निरवदयते निरवदयते चरमायाम् निरवदयत इति अवदयते चरमायामिष्टकायाम् इष्टकायाम् जुहोति जुहोत्यन्ततः अन्तत एव रुद्रम् रुद्रम् निरवदयते निरवदयते त्रेधा विभक्तम् निरवदयत इति अवदयते त्रेधा विभक्तम् जुहोति त्रेधा विभक्तमिति त्रेधा विभक्तम् जुहोति त्रयः त्रय इमे लोकाः लोका इमान् इमानेव एव लोकान् लोकान् समावद्वीर्यान् समावद्वीर्यान् करोति समावद्वीर्यान् करोति यदि इयद्यग्रे अग्रे जुहोति जुहोत्यथा अथेयति इयद्यथा अथेयति इयदि त्रयः त्रय इमे लोकाः लोका एभ्यः एभ्य एवैनम् एनम् लोकेभ्यः तिस्रः तिस्र उत्तराः उत्तरा उत्तरा इत्युदतराः आहुतीर्जुहोदि आहुतीरित्याहुतिः जुहोति षड् सम्पद्यन्ते पद्यन्ते षड्वै वा ऋतवः ऋतव ऋतुभिः एवैनम् येन तुम् शमयति शमयति यद् यदनुपरिक्रामम् अनुपरिक्रामम् जुहुयात् अनुपरिक्राममित्यनुपरिक्रामम् जुहूयादन्तरपचारणम् अन्तर्वचारणम् रुद्रम् अन्तरवचारणमित्यन्तः अपचारणम् रुद्रम् कुर्यात् कुर्यादथो अथो खलु अथो विद्यथो खल्वाहो आहुः कस्याम् कस्याम् वाह आह दिशि दिशि रुद्रः रुद्रः तस्याम् वा वेदि इत्यनुपरिक्रामम् अनुपरिक्राममेव अनुपरिक्राममित्यनोपरिक्रामम् एव होतव्यम् होतव्यमपरिवर्गम् अपरिवर्गमेव अपरिवर्गमित्यपरिवर्गम् एवैनम् एनकं शमयति शमयत्येताः एता वै मयि देवताः देवताः स्वर्ग्याः स्वर्ग्यायाः स्वर्ग्या इति सुभाग्याः उत्तमास्ताः उत्तमा इत्युत्तमाः तायजमानम् यजमानम् वाचयति वाचयति ताभिः ताभिरेव एवैनम् येनकम् सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति सुभागम् गमयति गमयतियम् यम् नृष्यात् नुष्यात्तस्य तस्य सञ्चरे सञ्चरे पशूनाम् सञ्चरयति संचरे पशूणान्नि न्यस्येत् अस्येर्यः यः प्रथमः प्रथमः पशुः पशुमभितिष्ठति अभितिष्ठति सः अभितिष्ठतेत्यभितिष्ठति स आर्तिम् आर्तिमा आर्च्छति पृच्छति तृच्छति अस्मन्नूर्जम् ऊर्जमिति इति परि परिषिञ्चति सिञ्चति मार्जयति मार्जयत्येव एवैनम् एनमथो अथो तर्पयति अथो इत्यथो तर्पयत्येव एव सः स एनम् एनम् तृप्तः तृप्तोऽक्षध्यन् अक्षध्यन्नशोचन्य अशोचन्नमुष्मिन् अमुष्मिन्लोके लोकमुप उपतिष्ठते तिष्ठते तृप्यति दृप्यति प्रजया प्रजया पशुभिः पृशेरिति प्राजयाः पशुभिर्यः पशुभिरिति पशुभिः य एवम् एवम् वेद वेदताम् तान्नः न इषम् इषमोर्जुम् ऊर्जुम् धत्ता दत्तमरुदः मरुदः सगुम्रवाणाः सगुम्रराणा इति सगुम्रराणा इति सम्रराणाः इत्याह आहान्नम् अन्नम् वै वा ऊर्ग् ऊर्घन्नम् अन्नम् मृदोऽन्नम् अन्नमेव एवाव अवरुन्धे वृन्धेऽस्मिन् अश्मग्स्ते ते क्षुत् क्षुदम् तेशुग ते सुगृच्छतु शुक, गृच्छतु यम् यन्द्विष्मः विष्म इति इत्याह आहयम् यमेव एव द्वेष्टि द्वेष्टिनम् तमस्य तस्य क्षुधा च शुचा शुचा शार्पयति अर्पयदित्रिः त्रिः परिषिञ्चन् परिषिञ्चन्परि परिषिञ्चन्निति परि सिञ्चन् पर्येति एदित्रवृत् त्रिकृद्वै त्रिकृदित्रिवृत् वा अग्निः अग्निर्यावान् यावानेव एवाग्निः अग्निस्तस्य तस्य शुकम् शुचकम् शमयति शमयदित्रिः त्रिः पुनः परि पर्येति एति षट् सम्पद्यन्ते पद्यन्ते षड् षड्द्वै वा ऋतुभिरेव ऋतुभिरि ऋतुभिः एवास्य अस्य शुजं सुजगुं शमयति शमयत्यपाम् अपाम् वै वा एतत् एतत्पुष्पम् पुष्पञ्यत् यद्वेतसः वेतसोपाम् अपाकुंशरः शरोवगाः अवगावेतसशाखयाः वेतसशाखया च वेतसशाखयेति वेतसाशाखयाः चावकाभिः अवगाभिश्च कवि विकर्षति कर्षत्यापः आभो वै वै शान्ताः शान्ताः शान्ताभिः शान्ताभिरेव एवास्य अस्य सुचम् सुचगुम् शमयति शमयति यः वा अग्निम् अग्निम् चिदम् चिदम् प्रथमः प्रथमः पशुः पशुरधिक्रामदि अधिक्रामतीश्वरः ईश्वरो वै वै तम् त्रगुं सुचा प्रदो मण्डूकेन प्रदः इति प्रातः मण्डूकेन विकर्षति करिषत्येषः एष वै वै पशूनाम् पशूनामनुपजीवनीयः अनपजीवनीयो न अनपजीवनीय इत्यनपजीवनीयः न वै द्वा एषः एष ग्राम्येषु ग्राम्येषु पशुषु पशुषु हितः हितो तमेव एव सुचा शुचार्पयति अर्पयत्यष्टाभिः अष्टाभिर्वि विकर्षति कर्षत्यष्टाक्षरा अष्टाक्षरा गायत्री अष्टाक्षरे त्रष्टाक्षराः गायत्री गायत्रः गायत्रोः अग्निः अग्निर्यावान् तस्य शुचम् शुजगम् शमयति शमयति पावगवदेभिः पावगवदेभिरन्नम् पावगवदेभिरिति पावगवदेभिः अन्नम् वै वै पावकः वा भगवन्नेन अन्नेनैव एवास्य अस्य शुचम् शुचगम् शमयति मृत्युः मृत्युर्वै वा एषः एष यदग्निः अग्निर्ब्रह्मणः ब्रह्मण एतत् एतद्रूपम् रूपम् यत् यत्कृष्णार्जुनम् कृष्णार्जुनम् कार्ष्णी उपानहौ कार्ष्णी इति कार्ष्णी उपानः उप उपमन्दरे मुञ्चदे ब्रह्मणा ब्रह्मणैव एव मृत्योः मृत्योरन्तः अन्तर्धत्ते रन्दः अन्तर्मृत्योः मृत्योर्धत्ते रत्तेन्दः अन्तरन्नाद्यात् अन्नाद्यादिति अन्नाद्यादित्यन्नाद्यात् इत्याहो आहुरण्याम् अन्यामुपमञ्चरे उपमुञ्चतेऽन्याम् उपमुञ्चतेत्युपामञ्चते अन्यान्ननान्तः अन्तरेव एव मृत्योः वृत्योर्धत्ते धत्तेव अवान्नाद्यम् अन्नाद्यमुन्धे अन्नाद्यमित्यन्नाद्यम् रन्धे नमः नमस्ते ते हरसे हरसे शोचिषे शोचिष इत्याह आह नमस्कृत्य नमस्कृत्य हि नमस्कृत्य इति नमःकृत्य किमसि आपुंसम् असि यांसमुपचरन्ति उपचरन्त्यन्यम् उपचरन्ते इत्युपाचरन्ति अन्यन्ते अस्मत् अस्मत्तपन्तो तपन्तु हेरयः हेरे इत्याह आहयद्वेष्टिद्वेष्ट अस्य शुचा शुचार्पयति अर्पयति पावकः पावको अस्मभ्यम् अस्मभ्यगम् शिवः अस्मभ्यमित्यस्माभ्यम् शिवो भव भवेदि इत्याह आहान्नम् अन्नम् वै वै पावगोन्नम् अन्नमेव एवाव अवरुन्धे वृन्धे द्वाभ्याम् द्वाभ्यामधि अधिक्रामदि क्रामदि प्रतिष्ठित्यै प्रतिष्ठित्या अपस्यपतीभ्याम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अपस्यपतीभ्यांशान्ध्यै अपस्यपतीभ्यामित्यपस्यापतीभ्याम् शान्त्या इति शान्त्यै ऋषदे वट् ऋषद इति वटिति इति व्याघारयति व्याकारयति मङ्ग्या व्याघयतीति आकारयति अङ्ग्याहृत्या आहुत्या यज्ञमुखम् आहत्यहुत्या यज्ञमुखमा यज्ञमुखमिति आरभते लभते क्ष्णया अक्ष्णया व्याघारयति व्याघारयति तस्मात् व्याघारयतीति आघारयति तस्मादक्ष्णया अक्ष्णया पशवः पशवाङ्गानि अङ्गानि प्र प्रहरन्ति हरन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै यत् प्रतिष्ठित्या इति प्रतिष्ठित्यै जातयामा वषट्कुर्यादिति वषटकुर्यात् जातयामास्य यातयामेति जातायामा अस्य वषट्कारः रुषट्कारः स्यात् षट्कार इति वषटकारः न वषट्कुर्याद् वषट्कुर्याद्रक्षागुंसि अषट्कुर्यादिति वषट् कुर्याद् रक्षागुंसि यज्ञम् यज्ञकम् हन्युः हन्युर्वट् इत्याह आह परोक्षम् परोक्षमिति परः अक्षम् एव वषत् वषत्करोति वशड़ करोति करो न नास्य अस्य जातयामा यातयामा वषत्कारः जातयामेति जातायामा वषत्कारो भवति वषट्कार इति वषत्कारः भवति न यज्ञम् यज्ञकम् रक्षाकुंसि रक्षाकुंसिद्धन्ति घन्ति हुतादः हुतादो वै हुताद इति वा अन्ये अन्ये देवाः देवा अहुतादः अहुतादोऽन्ये अहुताद इत्यहुतादः अन्येतान् तान् अग्निजित् अग्निरेव अग्निरित्यग्निचित् एवोभयान् उभयान् प्रीणाति प्रीणादि ये ये देवाः देवा देवानाम् इति दध्वा दध्ना मधुमिश्रेण मधुमिश्रेणा वा मधुमिश्रेणेति मधुमिश्रेण अवो ओक्षति रुक्षति हुतादः हुतादश्च हुतादगि हुता अदः एव देवान् देवान् अहुतादश्च अहुतादगित्यहुता अदः च यजमानः यजमानः प्रीणादि प्रीणादि ते यजमानम् यजमानम् प्रीणन्ति प्रीणन्ति दध्वा दध्नैव एव हुतादः हुतादः प्रीणादि हुता अधः प्रीणादि मधुषा मधुषा हुतादः अहुतादो ग्राम्यम् अहुतादयित्यहुता अधः ग्राम्यम् वै वा एतत् एतदन्नम् अन्नयत् यद्धि अध्यारण्यम् आरण्यम् मधु मधु यद् यद्दध्ना दद्धा मथुमिश्रेण मधुमिश्रेणावोक्षरि मधुमिश्रेणेति मधोमिश्रेण अवोक्षत्युभयस्य अवोक्षतीत्यवोक्षरि अवरुध्यै गुरुमुष्टिना अवरुद्ध्या इत्यववरुद्ध्यै गृमुष्टिनाव ओक्षरि ऋक्षरि प्राजावत्यः प्राजावत्यो वै प्राजावत्यैति प्राजावत्यः वै गृमुष्टे गृमुष्टिश्रयो नित्वाय श्रयो नित्वा जत्वाभ्याम् श्रयो नित्वाय यदि श्रयोनीत्वाय द्वाभ्याम् प्रतिष्ठित्यादि प्रतिष्ठित्यै अनुपरिचारमव अनुपरिचारमित्यनुपरिचारम् अवो वक्षति वृक्षत्यपरिवर्गम् अपरिवर्गमेव अपरिवर्गमित्यपरिवर्गम् एवैनान् एनान् प्रीणादि प्रीणादिभिवै वा एषः एष प्राणैः प्राणैः प्रजया प्राणैरति प्राणैः प्रजया पशुभिः प्रजयेरति यो अग्निम् अग्निम् चिन्वन् चिन्वन्नधिक्रामदि अधिक्रामदि प्राणदाः अधिक्रामदे अद्यधिक्रामति प्राणदा अवानदाः प्राणदा इति अपानदा इति अपानदा इत्यपानादाः इत्याह आह प्राणान् प्राणानेव प्राणानति प्राणान् एवात्मन् आत्मन् धत्ते धत्ते वर्चोदाः वर्चोदावरिमोदाः वर्चोदा इति वर्चादाः वरिबोदा इति वरिबोधा इति वरिवहदाः इत्याह आह प्रजा प्रजा प्रजेति प्राजा वैवृचः वर्तः पशवः पशवो वरिवः वरिवः प्रजामेव प्रजामिति प्राजाम् येव वृषून् पशूनात्मन् आत्मम् धत्ते धत्त इन्द्रः इन्द्रो वृत्रम् वृत्रमहन् अहन्तम् तम् वृत्रः अतः षोडशभिः षोडशभिर्भोगैः षोडशभिरिति षोडशाभिः भोगैरसिनात् भो असिनाक्स स एताम् एतामग्नये अग्नयेनीकवते अनेकवत् आहुतिम् अनेकवत इत्यनीकवते आहुतिमपश्यत् आहुतिमित्याहुतिम् अपश्यत्ताम् <workitenın> तामजुहोद् अजुहोत्तस्य तस्याग्निः अग्निरनीकवान् अनीकवान् स्वेन अनीकवान् इत्यनीकावान् स्वेन भागधेयेन भागधेयेन प्रीतः वृत्रस्य षोडशधेति भोगानपि अप्यदहत् अतः द्वैश्वकर्मणेन वैश्वकर्मणेन पाप्मनः वैश्वकर्मणेन च वैश्वकर्मणेन पाप्मनोनिः यदमुच्यत अमुच्यत यद् यदग्नये अग्नयेऽनीकपदे अनीकवदाहुजम् अनीकवद आहुदिम् जुहति आहुदिमित्याहुदिम् जुहोत्यग्निः अग्निरेव एवास्य अस्यानीकवान् अनीकवान्शेन अनीकवानित्यनीकावान् सेन भागधेयेन भागधेयेन प्रीतः भागधेयेनेति भागधेयेन प्रीतः पाप्मानम् अपि दहति दहति वैश्वकर्मणेन वैश्वकर्मणेन पाप्मनः वैश्वकर्मणेनेति वैश्वाकर्मणेन पाप्मनोनिः निर्मुच्यते मुच्यतेयम् यम् कामयेत कामयेत् चिरम् चिरम् पाप्मनः पाप्मनोनिः निर्मुच्येत मुच्येतेति इत्येकैकम् एकैकन्दस्य एकैकमित्येकम् एकम् तस्य जुहूयाद् जुहूयाच्चिरम् चिरमेव एव पाप्मनः पाप्मनोनिः निर्मुच्यते मुच्यतेयम् यम् कामयेत कामयेत् ताजक् ताजक्पाप्मनः पाप्मनोनिः निर्मुच्येत मुच्येतेति इति सर्वाणि सर्वाणि तस्य तस्यानुदृत्य अनुदृत्यजुहुयात् अनुदृत्येत्यनुदृत्य जुहुयात् ताजग ताजगेव एव पाप्मनः पाप्मनोनिः निर्मुच्यते मुच्यतेऽोः अथो खलु अथो इत्यथोः खलु नाना नानैव एव सूक्ताभ्याम् सूक्ताभ्याम् जुहोति सूक्ताभ्यामिति सूक्ताभ्याम् जनाना नानैव एव सूक्तयोः सूक्तयोर्वीर्यम् सूक्तयोरिति सूक्तयोः वीर्यम् दधाति दधात्यथो अथो प्रतिष्ठत्यै अथो इत्यथोः प्रतिष्ठत्या प्रतिष्ठित्यैनम् एनमुत्तराम् उत्तरान्नय उत्तरामित्यु धरान् नयेति इति समिधः समिधः समिध इति आदधाति तथादि यथा जनम् जनम् यते करोति तादृक् तादृगेव एव तत् तत् तिस्रः तिस्रः आदधाति तथादित्रिवृत् त्रिवृद्वै त्रिवृदित्रिवृत् वा अग्निः अग्निर्यावान् यावानेव एवाग्निः <wil cose> अग्निस्तस्मै तस्मै भागधेयम् भागधेयम् करोति भागधेयमिति भागाधेयम् करोत्यौदुम्बरीः औदुम्बरीर्भवन्ति भवन्त्यूर्ग् ऊर्ग्वै वा ऊदुम्बरः ऊदुम्बरऊर्जम् ऊर्जमेव एवास्मै अस्मा अपि अपि दधाति दधात्युत् उविश्वे विश्वे देवाः देवा इति इत्याह आह प्राणाः प्राणा वै प्राणा इति प्राणाः विश्वे देवा देवा प्रानी प्रानी प्रानी ए वै विश्वे विश्वे देवाः देवाः प्राणैः प्राणैरेव प्राणैरतिप्राणैः एवैनम् एनमुद् अग्ने भरन्तु भरन्तु चित्तिभिः चित्तिभिरिति चित्तिभिरिति चित्तिभिः विह आह यस्मै यस्मा एवैनम् एनञ्चित्ताय चित्तायोगच्छते उद्यच्छते तेन उद्यच्छते तेनैव एवैनम् येन समर्थयति अर्धयति पञ्च पञ्चदिशः दिशो दैवीः दैवीर्यज्ञम् यज्ञमवन्तु भवन्तु देवीः इत्याह आहदिशः दिशो हि ह्येषः एषो नु अनुः प्रत्यपते प्रत्यपतेऽप प्रत्यपत इति प्राच्यवते अपामतिम् इत्याह आह रक्षसामपहत्यै अपहत्यै रायः अपहत्याहती राजस्पोषे पोषे यज्ञपदिम् यज्ञपदिमाभजन्तीः यज्ञपतिमिति यज्ञापतिम् आभजन्तीरिति आभजन्तीरित्या आभजन्तीः इत्याह आह पशवः पशवो वै वै राजः राजस्पोषः पोषः पशून् रुन्धे रुन्धे षड्भिः षड्भिर्हरति षड्भिरिति षड्भिः हरति षड् षड्वै वा ऋतवः ऋतव ऋतुभिः ऋतुभिरेव ऋतुभिरित्यभिः एवैनम् एनगम् हरति हरति द्वे द्वे परिदृश्यपती द्वे इति द्वे परिगृह्यवती भवतः परिगृह्यवती इति परिगृह्यावती भवतो रक्षसाम् रक्षसामपहत्यै सूर्यरश्मिः अपहत्या इत्यपाहत्यै सूर्यरश्मिर्हरिकेशः सूर्यरश्मिरिति सूर्यारश्मिः हरिकेशः पुरस्तात् हरिकेश हरिकेशः पुरस्तादिति इत्याह आह प्रसो गोत्रै ततः प्रसो इति प्रासोद्यः ततः पावकाः पावरा आशिषो नः आशिष इत्या आशिषः नो जुषन्ताम् जुषन्तामिति इत्याह आहान्नम् अन्नम् वै वैपावकः पावकोन्नम् अन्नमेव एवाव अवरुन्धे रुन्धे देवासुराः देवासुराः संयत्ताः देवासुरा इति देवासुराः संयत्ताः आसन् संयत्ता इति सम्यक्ताः सन्ते ते देवाः देवा एतत् देवा एतदप्रतिरथम् दे, अप्रजलधमपश्यन् अप्रजलधमित्यप्रतीर्थम् अपश्यन्तेन तेन वै वै ते ते प्रति अप्रत्यसुरान् असुरानजयन् अजयन् तत् तदप्रतिरथस्य अप्रजलधस्याप्रतिरथत्वम् अप्रतिरथस्येत्यप्रतीर्थस्य अप्रतिरथत्वम् यत् अप्रतिरथत्वमित्यप्रतिरथात्वम् यदप्रतिरथम् अप्रतिरथम् द्वितीयः अप्रजलधमित्यप्रतीर्थम् ोता होता अन्वाह अन्वाहा प्रति अन्वाहेत्यनो आह अप्रत्येव एव तेन तेन यजमानः यजमानो भ्रातृव्यान् भ्रातृव्याञ्जयति यत्यथो अथो अनभिजितम् अथो इत्यथो अनभिजितमेव अनभिजितमित्यनभिजितम् देवाभि अभिजयति ये लषर्चम् भवति दषर्चमिति दशाम् अक्षरा दशा अक्षरा विराड् दशा अक्षरेति दशा अक्षरा विराट् विराजेति वीराजः इमौ लोकौ लोकौ विधृतौ विधरामनयोः विसृताविति विधृतौ अनयोर्लोकयोः लोकयोर्विधृत्यै विसृत्या अथोः विसृत्या इति विधृत्यै अथो दशा अक्षरा अथो इत्यथोः दशा अक्षरा विराट् दशा अक्षरेति दशा अक्षरा विराडन्नम् विराडिदिवीराट् अन्नम् विराट् विराट् विराजि विराडिदि विराट् अन्नाद्ये प्रति अन्नाग्नि इत्यन्नाद्ये प्रतिष्ठति तिष्ठत्यसत् असदिव इव वै वा अन्तरिक्षम् अन्तरिक्षमन्तरिक्षम् अन्तरिक्षमिव इवाग्नीध्रम् आग्नीध्रमाग्नीध्रे आग्नेघ्रमित्याग्नीघ्रम् अश्मानन्नि विदधाति दधाति सत्त्वाय सत्त्वाय द्वाभ्याम् सत्त्वायैति सदत्वाय द्वाभ्याम् प्रतिष्ठत्यै प्रतिष्ठ्यत्यै विमानः प्रतिष्ठत्या इति प्रतिष्ठ्यत्यै विमान एषः विमान इति विमानः एष दिवः दिवो मध्ये मध्य आस्ते आस्त इति इत्याह आहवि द्व्येव देवैतया एतया विमीते विमीते मध्ये मध्ये दिवः दिवो निहित इति निहितः पृष्टिरश्मा रश्मेति इत्याह आहान्नम् अन्नम् वै वै पृश्नि अन्नमेव एवाव अवरुन्धे रुन्धे चतसृभिः चतसृभिरा चतसृभिरिति चतसृभिः आवृक्षाद् वृक्षादेति एति चत्वारि चत्वारि छन्दागुंसि छन्दागुंसि छन्दोभिः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एवेन्द्रम् इन्द्रम् विश्वाः विश्वा अविवृधन्निति इत्याह आहवृद्धिम् वृद्धिमेव एवोपावर्तते उपावर्तते वाचानाम् उपावर्तते इत्युपावर्तते वाजानाम् सत्पदिम् सत्पदिम् पतिम् सत्पदिमिति सद्मिति इत्याह आहान्नम् अन्नम् वै वैवाजः वाजोऽन्नम् अन्नमेव एवाव तव रुन्धे रुन्धे सुम्नहोः सुम्नहोर्यज्ञः सुम्नहोरिति सुम्नाहोः यज्ञो देवान् देवागो आचर्वक्षत् वक्षतिरि इत्याह आह प्रजा प्रजा वै प्रजेति प्राजा वै पशवः पशवः सुम्नम् सुम्नम् प्रजाम् प्रजामेव प्रजामिति प्राजाम् एव पशून् पशूनात्मन् आत्मन् धत्ते धते यक्षत् यक्षदग्निः अग्निर्देवः देवो देवान् देवागुम् आ च वक्षत् वक्षदि इत्याह आह सुगाकृत्यै सुगाकृत्यै वाजस्य सुगाकृत्या इति सुगाकृत्यैः वाजस्य वा महाप्रसवेन प्रसवेनो अग्राभेण प्रसवेनेति प्रसवेन उद्ग्राभेणोणेत्युतग्राभेण उदग्रभीद् अग्रभीदिरि इत्याह आहासौ असौ वै वा आदित्यः आदित्य उद्यन् उद्यन्नुद्ग्राभः उद्यन् इत्युदयन् उद्ग्राभ एषः उद्ग्राभ एष निम्रोचन् निम्रोचन् निग्राभः निम् रोचन्निति निम् रोचन् निग्राभो ब्रह्मणैव एवात्मानम् आत्मानमुद्गृह्णाति उद्गृह्णाति ब्रह्मणा उद्गृह्णाति इत्यत्र गृह्णाति ब्रह्मणा भ्रातृव्यम् भ्रातृव्यन्नि निगृह्णाति गृह्णातीति गृह्णाति प्राचीमनो अनुप्रदिशम् प्रदिशम् प्रा प्रतिशमिति प्रादिशम् प्रेहि इह विद्वान् विद्वानिति इत्याह आहदेवलोकम् एवलोकमेव एवलोकमिति देवालोकम् एवैतयाः एतजोपावर्तते उपावर्तते क्रमध्वम् उपावर्तते यज्ञपा आवर्तते क्रमध्वमग्निनाः अग्निना नाकम् नाकमिति यज्ञाः आहेमान् इमानेव एतजा लोकान् लोकान् क्रमदे क्रमदे पृथिव्याः अहम् अहमुद् उदन्तरिक्षम् अन्तरिक्षमा आरुहम् अरुहमिति यज्ञाः आहेमान् इमानेव एवैतयाः एतया लोकान् लोकान् समारोहति समारोहति स्वः समारोहतीति समारोहति सुवर्यन्तः इदन्तो न ना, नाप अपेक्षन्ते ईक्षन्त इति इत्याह स्वर्गमेव स्वर्गमिति सुवहागम् एत लोकमेति एत्यग्ने अग्ने प्रेहि इह प्रथमः प्रथमो देवयताम् देवयतामिति देवयतामिति देवायताम् इत्याह आहोभयेषु उभयेष्वेव एवैतयाः एतया देवमनुष्येषु एवमनुष्येषु चक्षुः एव मनुष्येष्वति देव मनुष्येषु चक्षुर्दधाति दधाति पञ्चभिः पञ्चभिरधि पञ्चभिरिति पञ्चाभिः अधिक्रामति क्रामतिपाङ्क्तः पाङ्क्तो यज्ञः यज्ञो यावानेव एव यज्ञः यज्ञस्तेन तेन सह सहसुवर्गम् सुवर्गम् लोकम् स्वर्गमिति सुहागम् लोकमेतिषासाह नोषासेति इति पुरोणुवाक्याहम् पुरोणुवाक्यामनु पुरोणुवाक्यामिति पुरः अनुवाक्याहम् अन्वाह आह प्रत्ययि प्रत्या सहस्राक्षेति सहस्राक्षेति सहस्राक्ष इत्याह आह सहस्रः साहस्रः प्रजापतिः प्रजापतिः प्रजापतेः प्रजापते रात्रिः प्रजापते रतिप्रजापतेः तस्मै ते ते विधेमवाजाय वाजाय स्वाहेति इत्याह आहान्नम् अन्नम् वै वै वाजः अन्नमेव एवाव अवरुन्धे वृन्धे दध्ना दध्नः पूर्णाम् पूर्णामौदुम्बरीम् औदुम्बरी स्वयमादृन्नायाम् श्रयमादृन्नायाम् जुहोति श्रेमादुन्नायामिति स्वयम् गृहोद्योर्ग् ऊर्ग्वैर्वैदधि दध्योर्ग् ऊर्गुदुम्बरः ऊदुम्बरोऽसौ असौ स्वयमादर्णा स्वयमादर्णामुष्याः स्वयमादर्णेति स्वयम् आदर्णा अमुष्यामेव एवोर्जम् ऊर्जन् दधाति दधाति तस्माद् तस्मादमुतः अमुतोर्वाचीः अर्वाचीमूर्जम् ऊर्जमुप उपजीवामः जीवामस्तिसृभिः तिसृभिः साधयति तिसृभिरिति तिसृभिः साधयति त्रिवृत् त्रिवृद्वै त्रिवृदिति त्रिवृत् वा अग्निः अग्निर्यावान् यावानेव एवाग्निः अन्यस्तम् तम् प्रतिष्ठाम् प्रतिष्ठाङ्गमयदि प्रतिष्ठामिति प्रतिष्ठाम् तम प्रेद्धो अग्ने प्रेद्ध इति प्रायुद्धः अग्ने दीदिः दीदिः पुरः रो आदधातिषा एषा वै वै सूर्मी सूर्मी कर्णकावती कर्णकावत्येतयाः कर्णकावतीति कर्णकावतीः एतया यि देवाः देवासुराणा असुराणाग्दर्हान् शतदर्हानिति शतादर्हान् प्रगृह्णन्ति यत् यदेतया एतया समिधम् समिधमादधाति समिधमिति संविधम् आदधाति वज्रम् आदधाति इत्यादधाति वज्रमेव एवैतत् एतच्छतघ्नीम् शतघ्नी यजमानः शतघ्नीमिति शताघ्नीम् यजमानो भ्रातृव्याय भ्रातृव्याय प्रहरति परिसृत्यै श्रुत्याम् अशम्बट्कारम् विधेम अशम्बट्कारमित्यशम्बटेकारम् विधेम ते ते परमे परमे जन्मन् जन्मन्नग्ने अग्न यदि वैकङ्कतीम् वैकङ्कतीमा आ दधाति दधातिभाः एवाव अपरुन्धे गृन्धेताम् प्राकम् सवितुः सवितुर्वरे अन्यस्य वरे अन्यस्य चित्राम् चित्रामिति इति समीमयैः श्रीमयी शान्त्यैः समीपैः शान्त्या अग्निः वाह ह वै वा दुहे अग्निषितमित्यग्नीचितम् गुहे अग्निचित् अग्निचिद्वाह रग्निचिदित्यग्नेचित् वाग्निम् अग्निम् दुहे दुहेताम् पागुम् सवितुः सवितुर्वरेहण्यस्य वरे अस्य चित्राम् इत्याह आहेशः एष वै अग्ने वा अग्नेः अग्नेर्दोहः दोहस्तम् तमस्य अस्य कण्वः कण्व एव श्रायसः श्रायसो वेत् अवेत्तेन तेन हस्म स्मैनम् येन पुंसः स दुहे दुहेत् दु यदेतया दु एतया समिधम् समिधमादधाति समिधमिति संविधम् आदधात्यग्निचित् आदधाति इत्यादधाति रग्निषिदेव रग्निषिदित्यग्निषित् एव तत् तदग्निम् अग्निम् दुहे हे सप्त सप्तदे ते अग्ने अग्ने समिधः समिधः सप्त समिध इति संविधः सप्तजिह्वाः जिह्वा इति इत्याह आह सप्ता सप्तैव एवास्य अस्य साप्तानि साप्तानि प्रीणाति व्रीणादि पूर्णयाः पूर्णया जुहोति जुहोति पूर्णः पूर्ण इव इव हि यत्प्रजापतिः प्रजापतिः प्रजापतेः प्रजापतिरतिप्रजापतिः प्रजापतेराज्ञैः प्रजापतिरतिप्रजापतेः आप्तिन्योनया न्यूनया जहोति न्यूनये तिनिगुनयान्यूनात् न्यूनाद्भिः न्यूनातिनिगुनात् यः प्रजापतिः प्रजापतिः प्रजाः प्रजापतिरिति प्रजापतिः प्रजा असृजत प्रजाः असृजत प्रजानाम् प्रजानाम् सृष्ट्यैः प्रजानामिति प्राजानाम् सृष्ट्या अग्निः अग्निर्देवेभ्यः देवेभ्यो निलायत निलायत सः सदिशः दिशो नो जुह्न्मनसा मनसा, मनसा दिशः दिशो ध्यायेद् ध्यायेद्विग्ध्यः दिग्भेव दिग्धेति दिग्घः एवम् एनमव अवरुन्धे रन्ध्रे रध्ना रध्ना पुरस्ताद् पुरस्ताज्जुहोति युहोत्याज्येन आज्येनोपरिष्टाद् उपरिष्टात्तेजः तेजश्च ते चैव एवास्मै अस्मान्द्रियम् इन्द्रियम् च समीची समीची दधाति समीचीति समीची धाति द्वादशकपालः द्वादशकपालो वैश्वादरः द्वादशकपाल इति द्वादशकपालः वैश्वादरो भवति भवति द्वादश द्वादशमासाः आह मासाः संवत्सरः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो अग्निः अद्यर्वैईश्वनरः वैश्वानरः साक्षादेव साक्षादिति साक्षात् एव वैईश्वरानरम् वैश्वानरमव अवरुन्धे रन्धेत् यत्प्रयाजानो याजान प्रयाजानो याजान् प्रयाजानो याजान इति याजान कुर्याद्विगस्तिः विगस्तिः सा विगस्तिरिति विगस्तिः सा यज्ञस्य यज्ञस्य दर्विहोमम् दर्विहोमम् यज्ञस्य यज्ञस्य प्रतिष्ठित्यै प्रतिष्ठित्यै राष्ट्रम् प्रतिष्ठित्या इति प्रतिष्ठित्यै वै वै वैश्वादरः वैश्वादरो विट् विण्मरुतः मरुतो वैश्वादरम् वैश्वानरकम् हृत्वा हृत्वा मारुतान् राष्ट्र एव विषम् विषमनु अनुबध्नाति बध्नात्युच्चैः उच्चैर्व्यैश्वानरस्य वै वैश्वानरस्य आश्रावयति वै श्रावयत्युवाघुंशु उपाघुंशु मारुतान् उपाविष्वित्युपाघुंशु मारुतान् विहोति जुहोति तस्मात् तस्माद्राष्ट्रम् राष्ट्रम् विषम् विषमति अतिवदति वदति मारुताः मारुता भवन्ति भवन्ति देवानां सः सो देवसेन देवर्षेनैव देवर्षेनेति देवांशेन एवास्मै अस्मै मनुष्यविषम् मनुष्यविषम् वा मनुष्यविषमिति मनुष्याविषम् अवरुन्धे वृन्धे सप्त सप्त भवन्ति भवन्ति सप्तगणाः सप्तगणाः वै सप्तगणाः इति सप्त गणाः वै मरुतः मरुतो गणशः गणश एव गणश इति गणशः एव विषम् विषमव अवरुन्धे वृन्धे गणेन गणेन गणम् गणमनुदृत्य विषमेव एवास्मै तस्मानुवर्तमानम् अनुवर्तमानम् करोति अनुवर्तमानव्यक्तिमो वर्तमानम् करोति इति करोति वसोर्धाराम् धाराम् जुहोति वसोः वसोर्मे मे धाराः धारासत् असदिति इति वै वा एषा एषा हूयते हूयते कृतस्य वै वा एनमेषा एषा धाराः धारामुष्विन् मुष्विलोके लोके पिन्वमाना पिन्वमानोप उपतिष्ठते तिष्ठतः ज्येन आज्येन जुहोति जुहोति तेजः वा आज्यम् आर्जम् तेजः तेजोवसोः असोर्धाराः धारा तेजसा तेजसै वा एवास्मै अस्मै तेजः तेजोव अवरुन्धे वृन्धेऽसोः अथो कामाः अथो विद्यसो कामा धाराकामाने कामाने वा एवा अवरुन्धे यम् कामयेत् कामयेत प्राणान् प्राणानस्य प्राणानदिप्राणान् तस्यान्नाद्यम् अन्नाद्यम् वि अन्नाद्यमित्यन्नाद्यम् विच्छिन्द्याम् छिन्द्यामिति इति विग्राहम् विग्राहम् तस्य विग्रहमिति विग्रहम् तस्य जुहुयात् जुहयात् प्राणान् प्राणानेव प्राणानदिप्राणान् एवास्य तस्यान्नाद्यम् अन्नाद्यम् वि अन्नाद्यमित्यन्नाद्यम् इच्छिनत् कामयेत कामयेत् प्राणानस्य प्राणानिति प्राणान् अन्नाद्युपुंसम् अन्नाद्यमित्यन्नाद्यम् सन्तनुयाम् सनुयामिति सन्तताम् तस्य सन्ततामिति सन्तताम् अस्य विहूयात् विहूयात् प्राणान् प्राणानेव प्राणानि प्राणान् एवास्य अस्यान्नाद्यम् अन्नाद्युगुंसम् अन्नाद्यमित्यन्नाद्यम् सन्तनोति द्वादश द्वादश द्वादशानि द्वादशानि विहोति प्रभोदि मासाः संवत्सरः संवत्सरेण संवत्सर इति संवत्सरः संवत्सरेणैव अस्मा इति संवत्सरेण एवास्मै अस्मान्नम् अन्नमव अवन्धे रोन्धेऽन्नम् अन्नम् च चमेः मेक्षत् अक्षत् चमे मयि इत्याह आहैतत् एतद्वै वा अन्नस्य अन्नस्य रूपम् रूपकम् रूपेण रूपेणैव एवान्नम् अन्नमव अवरुन्धे वृन्धेऽग्निः अग्निश्च चमे मावः आपश्च चमे मयि इत्याह आहैषा शाव, एषा वै वा अन्नस्य योनिः योनिः स योनि स योन्येव स योनिदिशा योनि अर्धेन्द्राणि जुहोदि अर्धेन्द्राणि इत्यर्ध इन्द्राणि जुहोति देवताः देवता एव अवरुन्धे वृन्धे यत् सर्वेषाम् सर्वेषामर्धम् अर्धमिन्द्रः इन्द्रः प्रति प्रतितस्मात् तस्मादिन्द्रः इन्द्रो देवतानाम् देवतानाम् भूयिष्ठभागतमः भूयिष्ठभाक्तम इन्द्रम् भूयिष्ठभागतम इति भूयिष्ठभागतमः इन्द्रमुत्तरम् उत्तरमाह उत्तरमित्युदोत्तरम् आहेन्द्रियम् इन्द्रियमेव एवास्मिन् अस्मिन्परिष्ठाद् उपरिष्ठाद्दधाति दधाति यज्ञायुधानि यज्ञायुधानि जुहोति यज्ञायुधानीति यज्ञा आयुधानि जुहोति यज्ञः यज्ञो वै वैयज्ञायुधानि यज्ञायुधानि यज्ञम् यज्ञायुधानीति यज्ञ आयुधानि यज्ञमेव एवाव अवरुन्धे रुन्धेतोः अथो एतत् अथो इत्यथोः एतद्वै वै यज्ञस्य यज्ञस्य रूपम् रूपकम् रूपेण रूपेणैव एकयज्ञम् यज्ञमव अवरुन्धे रुन्धेऽवभृथः अवभृतश्च अवभृत इत्यवभृदः च मे मे सृगाकारः सृगाकारश्च सृगाकार चमे मैरि इत्याह आहस्वगाकृत्यै सुगाकृत्या अग्निः सुगाकृत्या इति सुगाकृतिः अग्निश्च क्षमे मे घर्मः घर्मश्च क्षमे मैरि इत्याह आहैतत् एतद्वै वै ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य रूपम् ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य रूपम् रूपेण रूपेणैव एव ब्रह्मवर्चसम् ब्रह्मवर्चसमव ब्रह्मवर्चसमिति ब्रह्मावर्चसम् अवरुन्धे वृन्धरुत्या चमे चमे मयि इत्याह आहैत एतद्वै वै छन्दसा छन्दसाकं रूपम् रूपकं रूपेण रूपेणैव एव छन्दाकंसि छन्दाकस्य वा अवरुन्धे गर्भा आह गर्भाश्च क्षमे मे वत्साः वत्साश्च च मे म इति इत्याह आहैतत् एतद्वै वै रूपकम् रूपेण रूपेणैव एव पशून् पशूनव अवरुन्धे वृन्धे कृपान् कृपान् जुहोति जुहोत्यकृप्तस्य अकृप्तस्य कृप्यैः कृप्यै युग्मदयुजे युग्मदयुजे जुहोति युग्मदयुजे युग्मदयुजे जुहोति मिथनत्वाय मिथनत्वायोव उत्तरावती मिथनत्वाये तु मिथुनात्वाय उत्तरावती भवतः उत्तरावधि इत्युत्तरावधी भवतोऽभिक्रान्त्यै अभिक्रान्त्या एका अभिक्रान्त्या इत्यभिक्रान्ति एका चमे मे तिस्रः तिस्रश्च च मे मयि इत्याह आह देवछन्दसम् देवछन्दसम् वै वा एका एका च तिस्रः तिस्रश्च स मनुष्यछन्दसम् मनुष्यछन्दसम् चदस्रः मनुष्या छन्दसम् चदस्रश्च साष्टौ अष्टौ च स च देव छन्दसमिति देवा छन्दसम् चैव एव मनुष्यछन्दसम् मनुष्यछन्दसम् च मनुष्यछन्दसमिति मनुष्या छन्दसम् च वा अपवृन्धे त्रयस्त्रिविंशतो जुहोति त्रयस्त्रिविंशत इति त्रयः त्रिविंशदः त्रयस्त्रिंशत् त्रयस्त्रिंशद्वै त्रयस्त्रिंशदिति त्रयः त्रिविंशत् वयि देवता आः देवता देवता आह देवता एव अवरुन्धे रन्धा अष्टाचत्वारिंशदः अष्टाचत्वारिंशतो जुहोति अष्टाचत्वारिविंशति इत्यष्टाचत्वारिविंशदः गुहोत्यष्टाचत्वारिंशदक्षरा अष्टाचत्वारिंशदक्षरा जगति अष्टाचत्वारिविंशदक्षरे अष्टाचत्वारिविंशति अक्षराः जगति जागताः जागताः पशवः पशवो जगत्या जगत्यैव एषास्मै अस्मै पशून् पशो नव अपरुन्ध्रे रुन्ध्रे वाजः वाजश्च कप्रसवः प्रथमश्च प्रसभ इति प्रासवः चेति इति द्वादशम् द्वादशम् द्वादशमासाः मासाः संवत्सरः संवत्सरः संवत्सरे संवत्सर इति संवत्सर एव संवत्सर इति संवत्सरे एव प्रति प्रतिष्ठति तिष्ठतीति तिष्ठति अग्निर्देवेभ्यः देवेभ्योप भागधेयमिच्छमानः भागधेयमिति भागाधेयम् इच्छमानस्तम् देवाः देवाब्रुवन् अब्रुवन्नुव उपनः न आवर्तस्व वर्तस्व हव्यम् हव्यन्नः लो वः सः सोऽब्रवीद् अब्रवीद्वरम् परम् ऋणै मह्यम् मह्यमेव एववाचप्रसवीयम् वाचप्रसवीयम् जुहवन् वाचप्रसवी रमितिवाचप्रसवीयम् जुहवन्निति तस्मात् तस्मादग्नये अग्नये वाचप्रसवीयम् वाचप्रसवीजम् जुहोति वाचप्रसवीरमितिवाजाप्रसवीयम् जुह्वयत् यद्वाचप्रसवीयम् वाचप्रसवीयम् जुहोदि वाचप्रसवीरतिवाचप्रसवीयम् जुहोत्यग्निम् अग्निमेव भागधेयेनेति भागाधेयेन समर्थयति अर्थयत्यथो अथो अभिषेकः अथो इत्यथो अभिषेक एव अभिषेक इत्यभिषेकः एवास्य अस्य सः चतुर्दशभिः चतुर्दशभिर्जुहति चतुर्दशभिरिति चतुर्दशभिः जुहोति सप्त सप्त ग्राम्याः ग्राम्या ओषधयः ओषधयः सप्त सप्तारण्याः आरण्या उभयीषा बुभीषामवृद्ध्यै अवृद्ध्या अन्नस्यान्नस्य अवरुद्ध्या इत्य वा अन्नस्यान्नस्य जुहोदि अन्नस्यान्नस्ये तिन्नस्य अन्नस्य विहोत्तिन्नस्यान्नस्य अन्नस्यान्नस्य अवरुद्धिः अन्नस्यान्नस्य तिन्नस्य औदुम्बरेण औदुम्बरेण श्रवेण श्रवेण जुहोदि विहोत्योर्ग ऊर्घ्वै वा उदुम्बरः उदुम्बरवोर्घ ऊर्ध्वनम् अन्नमूर्जा ऊर्जैव एवास्मै अस्मार्जम् ऊर्जमन्नम् अन्नमव अवरुन्धे वृन्धे अग्निः अग्निर्वै वै देवानाम् देवानामभिषिक्तः अभिषिक्तोग्निचित् अभिषिक्त इत्यभिषिक्तः अग्निजिन्मनुष्याणाम् अग्निचिदित्यग्नेचत् मनुष्याणाम् तस्मात् तस्मादग्निचित् अग्निचिद्वर्षति अग्निचिदित्यग्नेचत् वर्षति न धावेद् धावेदवरुद्धम् अवरुद्धम् हि अवरुद्धमित्यवारुद्धम् यस्य अस्यान्नम् अन्नमन्नम् अन्नमिव इव खलु खलु वै वै वरुषम् वरुषम् यद् यद्धावेद् धावेदन्नाद्यात् अन्नाद्या अन्नाद्यादित्यन्नाद्याद् धावेदुपावर्तेत उपावर्तेतान्नाद्यम् उपावर्तेत्युप आवर्तेत अन्नाद्यमेव अन्नाद्यमित्यन्नाद्यम् एवाभि अभ्युपावर्तते उपावर्तते न तोषासः उपावर्ततेत्युप आवर्तते न तोषासेरि इति कृष्णायी कृष्णायी श्रेदवत्सायै श्वेतवत्सायी वयसा श्वेतवत्सायी दापयति श्वेतावत्सायी वयसा जुहोदि जहोत्युन्हा अह्नैव एवास्मै रात्रिम् रात्रिम् प्रदापयति दापयति रात्र्या रात्र्याह अहरहोरात्रे अहोरात्रे एव अहोरात्रे इत्यह रात्रे एवास्मै अस्मै प्रत्ते प्रत्ययकामम् प्रर्थे इति प्रत्ते काममन्नाद्यम् अन्नाद्यम् दुहाते अन्नाद्यमित्युन्नाद्यम् दुहाते राष्ट्रभृतः दुहाते इति दुहाते राष्ट्रभृतो जुहोति राष्ट्रभृत इति राष्ट्राभृतः जुहोति राष्ट्रमेव एवा वारुन्धे वृन्धे षड्भिः षड्भिर्जुहोदि षड्भिर्दिषड्भिः षड्वऋवः ऋतवऋदुषु ऋतुष्वेव एव प्रति प्रतिष्ठति तिष्ठति भुवनस्य भुवनस्य पते पदैरिखे रथमुखे पञ्च रथमुखैति रथामुखे पञ्चाहुदैः आहुतिर्जुहोदि आहुदीरित्याहुः वज्रः वज्रो वै वैरथः रथो वज्रेण वज्रेणैव एव दिशः दिशोभि अभिजयति एत्यग्निशिदम् अग्निशिदम् ह अग्निशिदमित्यग्निशिदम् ह वै वा अमुष्मिन् अमुष्मिन्लोके लोके वातः वातोभि अभिपवते पुवते वातनामानि वातनामानि जुहोति वातनामानीति वातानामानि जुहोद्यभि अभ्येव एवैनम् एनमुष्मिन् अमुष्मिन्लोके लोके वातः वातः पुवते पुवते त्रीणि त्रीणि जुहोति जुहोति त्रयः त्वय इमे इमे लोकाः एभ्यः एभ्य एव लोकेभ्यः लोकेभ्यो वातम् वातमव अवरुन्धे रन्धे समुद्रः समुद्रोऽसि असि नभस्वान् नभःस्वानिति इत्याह एतद्वै वैवातस्य वातस्य रूपम् रूपम् रूपेण एव वातम् वातमव अवरुन्धे रन्धेऽञ्जलिना अञ्जलिना जुहोति जुहोतिना एतेषामन्यथा अन्यथाहुतिः आहुदिरवकम्पते आहुदिरित्याहुदिः अवकम्पत इत्यमाकम्पते स्वर्गाय वै स्वर्गाय लोकाय लोकाय देवर्थः एवरथ इति देवार्थः युज्यते यत्राभूताय यत्राभूताय मनुष्यरथः यत्राभूताय इति यत्राहूताय मनुष्यरथ एषः मनुष्यरथ इति मनुष्यार्थः एष खलु खलु वै वै देवः देवरथो यद् देवरथ इति देवार्थः यदग्निः अग्निरग्निम् अग्निनज्मि एवैनम् येन युक्तः युक्तः सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति लोकमभि अभिवहति वहति यत् यत्सर्वाभिः सर्वाभिः पञ्चभिः पञ्चभिर्युञ्ज्यात् पञ्चभिरिति पञ्चाभिः युञ्जाद्युक्तः युक्तोस्य अस्याग्निः अग्निः प्रच्युतः प्रच्युतः स्यात् प्रच्युत इति प्राच्युतः स्यादप्रतिष्ठिताः अप्रतिष्ठिता आहुदयः अप्रतिष्ठिता आहुदयः स्युः आहुदय इत्याहृदयः सुरप्रतिष्ठिताः सो वा अप्रदक्षितानि अप्रदिष्टितान्यर्थानि अप्रतिष्ठितानि त्रिप्रतिष्ठितानि उक्थानि त्रिसृभिः ऋषुभिः प्रातः त्रिसृभिरिति त्रिसृभिः प्रातःसवनेऽभिः प्रातः प्रातः सवने अभिवृषति त्रिवृत् त्रवृद्वै त्रवृदति त्रिवृद् वा अग्निः अग्निर्यावान् यावानेव एवाग्निः अन्यस्तम् तञ्जुनग्नग् यथा यथानसि अनसि युक्ते युक्ताधीयने आधीयन एवम् आधीयत इत्याधीयने एवमेव एव तत् तत्प्रति प्रत्याहृदयः आहृदयः तिष्ठन्ति आहुदय इत्याहृदयः तिष्ठन्त्यप्रति प्रतिस्तोमानाः स्तोमाः प्रति प्रत्युत्थानि उत्थानि यज्ञायज्ञस्य यज्ञायज्ञस्य स्तोत्रे स्तोत्रे द्वाभ्याम् द्वाभ्यामभि अभिमृशति एतावा वै यज्ञो यावान् यावानग्निष्टोमः भूमा अग्निष्टोम इत्यग्नि वा अस्य अस्यातः अथ ऊर्ध्वः ऊर्ध्वः क्रियते क्रियते एव यज्ञः यज्ञश्च तमन्ततः अन्ततो अन्वारोहति अन्वारोहति द्वाभ्याम् अन्वारोहतीत्यनु आरोहति द्वाभ्याम् प्रतिष्ठित्या एकया प्रतिष्ठित्या इति प्रतिष्ठित्यै एकया प्रस्तुतम् अप्रस्तुतम् भवति अप्रस्तुतमित्यप्रस्तुतम् भवत्यथ अथाभि अभिमृशति षत्विव उपैनम् एनमुत्तरः उत्तरो यज्ञः उत्तर इत्युत उत्तरः यज्ञानवदिथो अथो सन्तत्यै अथो इत्यथो सन्तत्यै प्र सन्तत्या इति सन्तत्यै प्र वै वा एषः अस्माल्लोकात् लोकाच्चवदे श्रवदेयः योऽग्निम् अग्निम् चिनुदे श्रिमृदेन न वै वा एतस्य एतस्यानिष्टके अनिष्टक आहुतिः आहुतिरव आहुतिरित्याहुतिः अपकल्पते कल्पते या याम् वै वा एषः अनिष्टक आहुतिम् आहुतिम् जुहोरि आहुतिरित्याहुतिम् जुहोति स्रवति स्रवति वै वै सा ीन्दी यज्ञः यज्ञानो अनुपरा परा भवति भवति यज्ञम् यज्ञम् यजमानः यजमानो यत् यत्पुनश्चिनिम् पुनश्चिनिम् पुनश्चितिम् आहुतीनाम् आहुतीनाम् प्रतिष्ठित्यै आहुतेनामित्याहुनाम् प्रतिष्ठित्यै प्रति प्रतिष्ठित्या इति प्रतिष्ठित्यै प्रत्याहुदयः आहुदयस्तिष्ठन्ति आहुदयैत्याहृदयः तिष्ठन्ति न न यज्ञः यज्ञः परा भवति परा भवति न परा भवतीति परा भवति न गायत्री अष्टाक्षरे तिष्टाक्षराः गायत्री गायत्रेण गायत्रेणैव एवैनम् एनम् छन्दसा एकादशत्रैष्णुभेन त्रैष्णुभेन यद् यद्वादश द्वादशजागतेन जागतेन छन्दोभिः जागते छन्दोभिरेव छन्दोभिरिति छन्दःभिः एैनम् एनम् श्रुते श्रुतेन वाद्गः बाद्गो ना एषो अग्निः अग्निर्यद् यत्पुनश्चितिः पुनश्चितः पुनश्चितिरिति पुनः जितिः एवम् एवम् विद्वान् विद्वान् पुनश्चितिम् पुनश्चितिम् चेत् अन्नमत्ति अति यथा वै वै पुनराधेयः पुनराधेय एवम् एवम् पुनश्चितिः पुनश्चितिर्यः पुनश्चितिरिति पुनः जितिः योज्ञाधेयेन अज्ञाधेयेन अज्ञाधेयेनेत्यग्नि आधेयेन न रध्वादि रध्वादिशः स पुनराधेयम् पुनराधेयः पुनराधेयमिति पुनः आधेयम् आधत्ते धर्धेयः योग्निम् चित्वा चित्वा नोति रध्वादिसः स पुनश्चिरिम् पुनश्चिदिमिति पुनः जिलिम् चिनुते यत् यत्पुनश्चितिम् पुनश्चितिम् चिनुते पुनश्चितिमिति पुनः जिलिम् चिनुदर्थ्यै वृद्ध्याथोः अथो खलु अथो यद्यथो खल्वाहुः आहर्न न चेतव्याः चेतव्येति इति रुद्रः रुद्रापि एषः एष यत् यदग्निः अग्निर्यथाः यथा व्याघ्रम् व्याघ्रम् सुप्तम् सुप्तम् बोधयति बोधयति तादृक् तादृगेव एव तत् रथो अथो खलु अथो इत्यथो खल्वाहो आहुश्चेतव्याः चेतव्येति यथा यथा वशीयागुंसम् वसीयागुंसम् भागधेयेन भागधेयेन बोधयति भागधेयेनेति भागधेयेन बोधयति तादृक् तादृगेव तन्मनुः मनोरग्निम् अग्निमचिनुद अचिनेन पुनश्चिरिम् अपश्यदाम् अचिनतया तया वै वै सहर्धार्धा यत्पुनश्चिरिम् पुनश्चिरिम् पुनश्चिरिम् छन्दश्चितम् चिन्वेद छन्दश्चितमिति छन्दः चितम् चिन्वेदपशुकामः पशुकामः पशवः पशुकामयति पशोकामः पशवो वै वै छन्दागुंसि छन्दागुंसि पशुमान् पशुमानेव पशुमानिति पशोमान् एव भगवति भगवति श्येनचितम् श्येनचितम् चिन्वेद श्येनचितमिति श्येनाचितम् स्वर्गकामः श्येनः सुवर्गकामयति सुवर्गाकामः श्येनो वै वै वयसाम् वयसाम् पतिष्ठः पतिष्ठः एव एव भूत्वा भूत्वा सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति सुवभागम् लोकम् पतति पतति कङ्कचितम् कङ्कचितम् चिन्वेद कङ्कचितमिति कङ्कचितम् चिन्वेदयः यः कामयेत कामयेत शीर्षण्वान् शीर्षण्वानशिन् शीर्षण्वानिति शीर्षण्वान् अमुष्मिल्लोके लोके सामिति इति शीर्षण्वान् शीर्षण्मानेव शीर्षण्वानिति शीर्षण्वान् एवामुष्मिन् अमुष्मिल्लोके लोके भवति भवत्यलचितम् अलचितम् चिन्वीर अलचितमित्यलजाचितम् चिन्वीतचतुःसीतम् चतुःसीतम् प्रतिष्ठागामः चतुःसैतमिति चतुः सीतम् प्रतिष्ठागामश्चतस्रः प्रतिष्ठा गाम इति प्रतिष्ठा गामः चतस्रो दिशः दिशो दिक्षो दिक्ष्वेव एव प्रति प्रतिष्ठति तिष्ठति प्रवोचितम् प्रहुगचितम् चिन्वेद प्रहुगचितमिति प्रभुगाचितम् चिन्वेदभ्रातृव्यवान् भ्रातृव्यवान् प्र भ्रातृव्यवान् प्रैव एव भ्रातृव्यान् भ्रातृव्यान्मुदते नुदत उभयतः प्रभुगम् उभयदः प्रभुगम् चिन्वीत उभयदःप्रभुगमित्युभयतः प्रभुगम् चिन्वीदयः यः कामयेत कामयेतप्रजातान् जातान् भ्रातृव्यान् भ्रातृव्यान्मुदेय नुदेजप्रति प्रतिजनिष्यमाणान् विनिष्यमाणानितिप्रयव एव जातान् जातान् भ्रातृव्यान् भ्रातृव्यान् नुदते नुदते प्रति प्रति जनिष्यमाणान् जनिष्यमाणान् रथचक्रचिलम् रथचक्रचिलम् चिन्मेद रथचक्रचिलमिति रथचक्राजितम् चिन्मेदभ्रातृव्यवान् भ्रातृव्यवान् भ्रातृव्यवान् इति भ्रातृव्यवान् वज्रो वै वज्रमेव एव भ्रातृव्येभ्यः भ्रातृवेभ्यः प्रहरति हरति द्रोणचितम् द्रोणचितम् चिन्वीत द्रोणचितमिति द्रोणचितम् चिन्वीतान्नकामः द्रोणे अन्नकाम इत्यन्नकामः द्रोणे वै वा अन्नम् अन्नम् प्रियते ब्रियते स योनि स यो अन्येव एवान्नम् अन्नमव अवरुन्धे वृन्धे समोह्यम् समोह्यञ्जिन्वेद समोह्यमिति सम्मोह्यम् चिन्वेद पशुगामः पशुगामः पशुमान् पशुकाम इति पशुमानेव पशुमान् इति पशुमान् एव भोजे भोजपरिचाय्यम् परिचाय्यम् जिन्वेद परिचाय्यमिति परिचाय्यम् चिन्वेदग्रामगामः रामगामो ग्रामी ग्रामकाम इति ्राम्येव एव भवति भवति श्मशानचितम् जितं। श्मशानचितम् चिन्वेद श्मशानचितमिति चिन्वेदयः यः कामयेत कामयेत पितृलोके पितृलोकरुध्नया पितृलोक इति पितृलोके रघ्नयामिति पितृलोके पितृलोक एव पितृलोक इति पितृलोके एवध्नोति रध्नोति विश्वामित्रजमदग्नी विश्वामित्रजमदग्निवधिष्ठेन विश्वामित्रजमदग्नी इति विश्वामित्रजमदग्नी वसिष्ठेना स्पर्धेत अस्पर्धयताजंसः स एताः एता जमदग्निः विहव्या अपश्यत् विहव्या इति विहव्याः अपश्यत्ताः ता उपा उपाधत्ता अधर्दताभिः ताभिर्वै वै सह स वसिष्ठस्य वसिष्ठस्येन्द्रियम् इन्द्रियम् इहव्या उपदधाति विहव्या इति वीहव्या आह उपदधातीन्द्रियम् इन्द्रियमेव देवताभिः ताभिर्वीर्यम् वीर्यम् यजमानः यजमानो भ्रातृव्यस्य भ्रातृव्यस्य कृङ्के कङ्क्ते होतुः होतुर्धिष्ण्ये धिक्ष्ण्यौ वा उपदधाति दधाति यजमानायतनम् यजमानायतनम् वै वै होताः होधा स्वे स्व एव एवास्मै अस्मायतने आयतन इन्द्रियम् आयतन इत्या आयतने इन्द्रियम् वीर्यम् वीर्यमव उपवृन्धे रन्धे द्वादश द्वादशोप उपदृधादि दृहादि द्वादशाक्षरा द्वादशाक्षरा जगति द्वादशाक्षरे द्विद्वादशाक्षरा जगति जागताः जागताः पशवः पृषवो जगत्या जगत्यैव एवास्मै अस्मै पशून् पशूनव अवरुन्धे रन्धे अष्टावष्टौ अष्टावष्टावन्येषु अष्टौ अन्येषु धिक्ष्ण्येषु धिष्ण्येषूप उपदधाति दधात्यष्टाशभाः अष्टाशभाः पशवः अष्टाशभा इत्यष्टाशभाः पशवः पशून् पशूनेव एवाव अवरुन्धे रुन्धे षट् षण्मार्जालीये षड्वै वा ऋतवः रतवः खलु खलु वै देवाः देवाः पितरः पितररतून् ऋतूनेव देवान् पितॄन् पितरान् प्रीणादि प्रीणादिति प्रीणादि प्रभश्च वाजसादये वाचसादय इति वाचसादय इति वाचसादये इत्यनुष्टक् अनुष्टक्प्रतिपद् अनुष्टगैत्यनौस्तु प्रतिबद्भवति प्रतिपदिति प्रतिपत् भवतिस्रः तिस्रो दि अनुष्टुभः अनुष्टभश्चतस्रः अनुष्टभैत्यनोस्तुभः चतस्रो गायत्र्यः गायत्र्यो यत्तिस्रः तिश्रष्टुभः अनुष्टुभस्तस्मात् अनुष्टुभैद्यनोस्तुभः तस्मादश्वः अश्वस्त्रिभिः त्रिभिस्तिष्ठन् त्रिभिः तिष्ठगस्तिष्ठति तिष्ठति यद् यच्चस्रः चदस्रो गायत्र्यः गायत्रियस्तस्मात् तस्मात् सर्वाणि सर्वागश्चतुरः चतुरः पदः पदःप्रदिदधर प्रदिदधः पलायते प्रतिदधदिति प्रतिदधर् पलायते परमा परमा वै वा एषा एषा छन्दसाम् छन्दसां यद् यदनुष्टुग् अनुष्टुक्परमः अनुष्टुगित्यनोस्तु परमश्चतुष्टोमः चतुष्टोमस्तोमानाम् त्रतुष्टोम इति परमः परमस्त्रिरात्रः त्रिरात्रो यज्ञानाम् त्रिरात्र त्रिरात्रः यज्ञानाम् परमः परमाश्वः अश्वः पशूनाम् परमेण परमेणैव देवैनम् एनम् प्रमदाम् प्रमदाम् गमयति गमयत्येकविशम् एकविवंशमहः एकविवंशमित्येका विपुंशम् अहद्भवति भवति यस्मिन् यस्मिन्नश्वः अश्वः आलभ्यते द्वादश आलभ्यत इत्या आलभ्यते द्वादशमासाः मासाः पञ्च पञ्चर्तवः ऋतवस्त्रयः त्रे इमे लोकाः लोका असौ असावादित्यः आदित्य एकविपुंशः एकविपुंश एषः एकविपुंश इत्येका विपुंशः एष प्रजापतिः प्रजापतिः तमेव एव साक्षात् साक्षादिति साक्षात् रघ्नातिषक्वरयः शकरयः पृष्ठम् पृष्ठम् भवन्ति भवन्त्यन्यदन्यत् अन्यदन्यच्छन्दः अन्यदन्यत् अन्यत् छन्दोऽन्येऽन्ये अन्येऽन्ये वै अन्येऽन्येत्यन्ये अन्ये वा एते एते पशवः पशवः आलभ्यन्ते लभ्यन्त उत उत एव इव ग्राम्याः ग्राम्या उत उत इवारण्याः आरण्या यत् यच्छकवरयः शकरयः पृष्ठम् भवन्ति भवन्त्यश्वस्य अश्वस्य सर्वत्वाय सर्वत्वाय पार्थरश्वम् सर्वत्वाय इति सर्वात्वाय पार्थरश्वम् ब्रह्मसामम् पार्थरश्वमिति पार्थोरश्वम् भवति ब्रह्मसाममिति ब्रह्म सामम्ना रश्मिना वै वा अश्वः अश्वयतः यत ईश्वरः ईश्वरो वा अश्वः अश्वयतः प्रतिष्ठितः अप्रतिष्ठित इत्यप्रदेशितः पराम् परावतम् परावतम् गन्दोः परावतमिति परावतम् गन्दोर्यर यत्पार्थरश्मम् पार्थरश्वम् पार्थरश्ममिति पार्थोरश्मम् ब्रह्मसामम् भवति ब्रह्मसाममिति ब्रह्म सामम् भवत्यश्वस्य अश्वस्य यत्यै यत्यै धृत्यै धृत्यै सङ्कृति सङ्कृत्यच्छावाकसामम् अच्छावाकसामम् भवति अच्छावाकसाममित्यच्छावाकसामम् भवत्युत्सन्नयज्ञः उत्सन्नयज्ञो वै उत्सन्नयज्ञ इत्युत्सन्नयज्ञः वा एषः एष यद्वमेधः अश्वमेधः कः अश्वमेध कस्तद् तद्वेन वेदेति इत्याहो आहुर्यदि सर्वः सर्वो वा क्रियते क्रियतेन न वा वा सर्वः सर्व यत्सङ्कृति सङ्कृत्यच्छावाकसामम् सङ्कृति सकृति अच्छावाकसामम् भवति भवत्यश्वस्य अश्वस्य सर्वत्वाय सर्वत्वाय पर्याप्त्यै सर्वत्वायति सर्वात्वाय पर्याप्त अनन्तरायाय पर्याप्ताय पर्याप्ति अनन्दरायाय सर्वस्तोमः अनन्तरायायैनन्दः आयाय सर्वस्तोमोदिरात्रः सर्वस्तोम इति अतिरात्र उत्तमम् अधिरात्र इत्यधिरात्रः उत्तममहः उत्तममित्युत्तमम् अहर्भवति भवति सर्वस्य सर्वस्याप्यै आप्यै सर्वस्य सर्वस्य नित्यै नित्यै सर्वम् सर्वमेव एव तेन तेनाप्नोति आप्नोति सर्वम् सर्वम् जयति जयतीति जयति ओ पञ्चमकाण्डे